अथवा कुशला कुशलाः केचिदुपायनिपुणानराः इतरेतरतः पार्थान् भेदयन्त्वनुरागतः व्युत्थापयन्तु वा कृष्णाम् बहुत्वात् सुकरं हितत् अथवा पाण्डवांस्तस्याम् भेदयन्तु ततश्च ताम् भीमसेनस्य वाराजन्नुपायकुशलैर्नरैः मृत्युर्विधीयताम् छन्नैः स हि बलाधिकः तमाश्रित्य कौन्तेयः पुरा चास्मान्न मन्यते सहि तीक्ष्णश्च शूरश्च तेषाम् चैव परायणम् तस्मिंस्त्वभिहते राजन् हतोत्साहा हतौ जसः यतिष्यन्ते न राज्ञाय स हि तेषां व्यपाश्रयः अजेयो ह्यर्जुनः सङ्ख्ये पृष्ठगोपे तमृते फाल्गुनो युद्धे राधेयस्य न